इदं तदशुभं नूनं तस्य कर्म चिकीर्षितम् प्रागेव विदुरो वेद तेनास्मानन्वबोधयत् सेयमापदनुप्राप्त क्षत्तायां दृष्टवान् पुरा पुरोचनस्याविदितानस्मांस्त्वम् प्रतिमोचय सतथेति प्रतिश्रुत्य खनको यत्नमास्थितः परिखामुत्किरन्नाम चकार महाबिलं चक्रे च वेश्मनस्तस्य मध्ये नातिमहद्बिलं कपाटयुक्तमज्ञातं समं भूम्यश्च भारता पुरोचनभयादेव व्यदधात्संवृतं मुखं सतस्य तु गृहद्वारि वसत्यश्च शुभधी सदा तत्र ते सायुधाः सर्वे वसन्ति स्म क्षपा नृपा दिवाचरन्ति मृगयाम् पाण्डवे यावनाद्वनम् विश्वस्तवदविश्वस्ता वञ्चयन्तः पुरोचनम् अतुष्टातुष्टवद्राजन् ऊषुः परमविस्मिताः